अथ शिवकवचम् अस्य श्रीशिवकवचस्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः अनुष्टुप्छन्दः श्रीसाम्ब सदाशिवो देवता ॐ बीजम् नमः शक्तिः शिवायेति कीलकं साम्ब प्रीत्यर्थे जपे विनियोगः ॐ सदाशिवाय अङ्गुष्टाभ्यां नमः नम गङ्गाधराय तर्जनीभ्यां नमः मं मृत्युञ्जयाय मध्यमाभ्यां नमः श्रीं शूलपाणजे अनामिकाभ्यां नमः वां पिनाकपाणजे कनिष्ठिकाभ्यां नमः यं उमापतजे करतलकरपृष्ठाभ्यां नमः ॐ हृदजाय नमः नं शिरसे स्वाहा मं शिखायै वशट। शिं कवचाय हुं नेत्रत्रयाय वहुषट् यं अस्त्राय फट् भूर्भुवस्वरोमिति दिग्बन्धः ध्यानं वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमं सहस्रकरवत्युग्रं वन्दे शम्भुमुमापतिं रुद्राक्षकङ्कणलसत्करदण्डयुग्मः फालान्तराळधृतभस्मसितत्रिपुण्ड्रः पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः अतः परं सर्वपुराणगुह्यं निःशेषपापौ गहरं पवित्रं जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हितायते लं पृथिव्यात्मने गन्धं समर्पयामि हम आकाशात्मने पुष्पैः पूजयामि यं वाय्वात्मने धूपमाग्रापयामि रम अग्न्यात्मने दीपं दर्शयामि वम अमृतात्मने अमृतं महा नैवेद्यं निवेदयामि सं सर्वात्मने सर्वोपचारपूजां समर्पयामि मन्त्रः ऋषभ उवाच नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरं वक्षे शिवमयं वर्म सर्वरक्षाकरं नृणा शुचौ देशे समासीनो यथावत्कल्पितासनः जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययं हृत्पुण्डरीकान्तरसंनिविष्टं स्वतेजसा व्याप्तनवावकाशम् अतीन्द्रियं सूक्ष्ममनन्तमाद्यम् ध्याजेत्परानन्दमयं महेशं ध्यानावधूताखिलकर्मबन्धच्छिदं चिदानन्दनिमग्नचेताः षडक्षरन्याससमाहितात्मा शैवेन कुर्यात् कवचेन रक्षां मां पातु देवोऽखिल संसारकूपे पतितं गभीरे तन्नाम दिव्यं धुनोतु मे सर्वमघं हृदिस्थम् सर्वत्र मां रक्षतु विश्वमूर्तिः ज्योतिर्मयानन्दघनश्चिदात्मा अणोरणीयानुरुशक्तिरेकः अनोरणिया ईश्वरः पातु भयादशेषाद् यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोष्ठमूर्तिः योपां स्वरूपेण नृणां करोति सञ्जीवनं सोपतु जलेभ्यः कल्पावजाने भुवनानि दग्ध्वा नृत्यति भूरी लील वात्यादिखिला प्रदीप्त विदुकनकसो विद्यावरा भीतिकुठार पुर्मुखस्तुरुषस्त्रिने प्राच्याथि रक्ष मजस्रं कठारखेटाकुशूल कपालमालाग्निकणान्दधानः चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्यां कुन्देन्दुशङ्खस्फटिकाववासो वेदाक्षमाला वरदा भयाङ्कः त्र्यक्षश्चतुर्वक्त्रमुरुप्रभावः सद्योधिजातो बतु मां प्रतीच्यां वराक्षमाला भयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः त्रिलोचनश्चारु चतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः वेदाभजेष्टाङ्कुशटङ्कपाश कपालढक्काक्षरशूलपाणिः सितद्युतिः पञ्चमुखोऽवतान् परमप्रकाशः मूर्धानभव्यान् मम फालं ममाव्यादथ फालनेत्रः नेत्रे ममाव्याद्भगनेत्रकारी नासां सदा रक्षतु विश्वनाथः पायाच्छ्रुति मे श्रुतिगीतकीर्तिः कपोलमव्यात् सततं कपाली वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वा कण्ठं गिरीशो वधुनीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः दोर्मूलमव्यान् मम धर्मबाहुः वक्षस्थलं दक्षमकान्तकोऽव्यात् ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान् मदनान्तकारी ह्येरं बतातो मम पातु नाभिं पायात्कटिं धूर्झटिरीश्वरो मे स्मरारिरव्यान् मम गुह्यदेशं पृष्ठं सदा रक्षतु पार्वतीशः ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात् सुरवन्द्यपादः महेश्वरः पातु दिनादियामे मां मध्यया मे वतु वामदेवः त्रिलोचनः पातु तृतीयजा मे वृषध्वजः पातु दिनान्त्यजामे पायान्निषादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे गौरीपतिः पातु निशावजाने मृत्युञ्जयो रक्षतु सर्वकालम् अन्तः स्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बगिस्थितं मां तदन्तरे सदाशिवो रक्षतु मां समन्तात् तिष्ठन्तमव्यात् भुवनैकनाथः पायाद्भ्रजन्तं प्रमथाधिनाथः वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवशयानं मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः अरण्यवासादिमहाप्रवासे पायान् मृगव्याथमुदारशक्तिः कल्पान्तकालोऽग्रपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः घोरारिसेनार्नवदुर्निवार महाभयाद्रक्षतु वीरभद्रः पत्यश्वमातङ्गरथावरूथिनि सहस्रलक्षायुतकोटिभीषणम् अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृणो घोरकुटारधारया निहन्तु दस्यून् प्रलया नरार्चिः ज्वलत्रिशूलं त्रिपुरान्तकस्य शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासय त्वेष धनुः पिनाकः दुःस्वप्नदुःशकुन दुर्गतिदौर्मनस्य दुर्भिक्ष दुर्भ्यसन दुःसखदुर्यशांसि उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थि प्रलय काल रौद्रवत दक्षाधरध्वंसकाय महाकाल भेदनाय मूलाधारैकनीलजा तत्वाताय गंगाधराय सर्वेवादिदेवाय षणाश्रजा वेदातसारा वर्ग साधनाय अनंतकोटिब्रह्मांडनायकाय अनन्तवासुकितक्षककार्कोटकशङ्खगुलिकपद्ममहापद्मेति अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाशदिक्स्वरूपाय ग्रहनक्षत्रमालिरे सकलाय कलङ्करहिताय सकलोकर्े सकलोकर्े सकलोक संहर्े सकलोक सकलोकसाक्षिणे सकल निगमगुह्याय सकल वेदापारकलोकवरप्रदा सकलोकशंकराय सकल दुरीताजनाय सकल जगदयंकर शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरुपप्लवाय निरवध्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय निरागाय निष्क्रोधाय निर्लोभाय निष्पाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्णसच्चिदानन्दाध्वजाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजोऽधिपतये जय, जय रुद्र महारौद्र महा भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्म खड्गधर पाशाङ्कुश डमरु त्रिशूल चापबाण गदा शक्तिभिण्डिबाल तोमर मुसल भुषुण्डिमुद्गर पाश परिघशतग्नि चक्राद्यायुध भीषणाकार सहस्रमुख दंष्ट्राकराळवदन विकटाट्टहास विस्फाटितब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नगेन्द्र निकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवागर विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महां मृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादय बुत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटय भुच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्धि छिन्धि खड्वाङ्गेन विपोथय विपोथय मम पापं शोधय शोधय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय यक्षरक्षांसि भीषय भीषय अशेषभूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगणब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरु कुरु नरकभयान् मामुद्धरमुद्धर वित्रस्तं माम् आश्वासय आश्वासय अमृतकटाक्षवीक्षणेन माम् आलोकय आलोकय सञ्जीवय सञ्जीवय क्षुतृष्णार्तं माम् आप्यायय आप्यायज दुःखातुरं माम् आनन्दय आनन्दय शिवकवतेन माम् आच्छादय आच्छादय हर हर मृत्युंजय त्रियंबक सदाशिव परमशिव नमस्ते नमस्ते नमस्ते नमः